अग्नेकाः शुक्रम् परस्ताज्ज्योतिरवस्तात् प्रजापते रोहिणी आपः परस्तादोषयोऽपस्तात् सोमस्येन्मकाभिच तानि परस्ताद्वयन्तोऽवस्तात् रुद्रस्य बाहो मृगयमः परस्ताद्विक्षालोवस्ताद् अतित्वे पुनर्वसो द्वादः परस्तादार्द्रमवस्ताद् बृहस्पदे स्तिश्यः द्युक्पदः परस्ताद् अवस्ताद् सर्पानामाश्रयशाः अभ्यागच्छन्दः परस्तादभ्या नृत्यन्दोवस्ताद् रुदृणाम्बाः रुदन्तः परस्तादभ्यगुशोऽवस्ताद् अर्यः पूर्वे भल्गुनि जाया परस्तादभोऽस्ताद् भगस्योत्तरे वहदमः परस्ताद्गहमाना अवस्तात् देवस्य च पितृहस्तः प्रथमः परस्तात्सहिरवस्तात् इन्द्रस्य चित्रात् ऋतम् परस्तात् सत्यमवस्तात् वायोर्निष्ट्या गदधिः परस्तादशद्धिरवस्तात् इन्द्राग्नियोर्विशाखे युगादिपरस्तात् कृषमाना अवस्तात् मित्रस्यानुराधाः अभ्यारोहः परस्तादभ्यारोषमवस्तात् इन्द्रस्य रोहिणी शृणत्परस्तात् प्रतिशणदवस्तात् नैले मूलबर्हणि प्रतिभञ्जन्तः परस्तात् प्रतिशनन्तमवस्तात् अपाम्बोर्वाषाढाः भर्गः परस्तात् समितिरवस्तात् विश्वेताङ्गेवानामुत्तराः अभिजयत्परस्तादभिजतमवस्तात् मृष्णाश्रोणा वृक्षमानाः परस्तात्पन्था अवस्तात् असो नागश्रविष्ठाः भूतम् परस्ताद्भूतिरवस्तात् इन्द्रस्य तदभिजगे विश्वविदात् परस्ताद्विश्वक्षितिरवस्तात् अनस्यैकपदः पूर्वे प्रोष्ठपदाः वै श्वातरम् परस्ताद्वै स्वावधवमस्तात् अहेरुपरे अभिषम् तः परस्तादभिषृण्वन्तोऽवस्ताद् ओष्णो रेव गावः परस्ताद्भत्सामस्ताद् अश्विनोरश्वयुजौ ग्रामः परस्तात् नामस्ताद् यमस्यापभरणेः अपगरिषन्तः परस्तादवहन्तोऽवस्ताद् ूर्णा पश्चाद्यत्ते देवादरुः यत्पुण्यम् नक्षत्रम् यदा वेशौर्य उदेति अथ नक्षत्रम् नैति यावति या तत्र सौर्यो गच्छेत् यत्र चन्यम् पश्येत् तावति कुर्वेदकार्ये स्यात् पुण्याः एव कुरुते एवकम् अपि यज्ञेषु च शतब्जुम् नम् यो वीण क्षत्रियम् प्रजापतिम् वेद उभयोरेणम् लोकयोर्विदुः हस्तगेवास्य हस्तः चित्राशिरः निष्ट्याहृदयम् ऊरो विशाखे प्रतिष्ठानो राधाः एवीनक्षत्रियप्रजापतिः य एवम् वेद उभयोरेणम् लोकयोर्विदुः अश्मङ्गश्चामुष्मङ्गश्च याम् तान् दृष्ट्या याम् दद्यात् प्रियैव तु पुनरागच्छति अभिजन्नाम नक्षत्रम् उपरिष्कादशाषानाम् अवस्ताक्षायैः देवासुराः सङ्गत्तासन् ते देवास्तस्मिन्नक्षत्रेऽभ्यजयन् मेतस्मिन्नक्षत्रेणादिये अनपदेयमेव जयति पामपराजितमिवतो प्रजापतिः पशूनसृजता हे नक्षत्रम् नक्षत्रमुपातिष्ठन्त हे समावन्दये वाभवन् ते रेव उपातिष्ठन्त रे ते रेवत्याम् प्राभवन् तस्माद्रेवत्याम् पशूनाम् कुर्वीदा यत्किञ्चाद्वाजेन पुंसोमान् प्रैव भवन्ति सलिलम् वा इदमन्तराधेहेत् निरन् तत्तारकानाम् तारकत्वम् यो वा ये अमुकम् सलोकम् नक्षते तन्नक्षत्राणान्नक्षत्रत्वम् देवगृहावै नक्षत्राणि एवम् वेद गृह्येव भवति यानि वा इमानि पृथिव्याश्चित्राणि तानि नक्षत्राणि तस्मादश्रीरणामग्निश्चित्रे नामस्येन्नैवेत यथा पापाहे कुरुते तादृगे वदे देवनक्षत्राणि वा अन्यानि यमनक्षत्राण्यन्यानि कृत्तिका प्रथमम् विशाखे उत्तमम् तानि देवनक्षत्राणि अनुराधा प्रथमम् अपभरणीरुत्तमम् तानि यमनक्षत्राणि यानि देवनक्षत्राणि तानि दक्षिणेन वरीयन्ति यानि यमनक्षत्राणि ता न्युत्तरेण अन्वेषामदा स्मेति तदनु राधाः ज्येष्ठमे जामवधिष्मेति तज्जेष्ठग्नि मूलमेषामवृक्षामेति अन्मूलवर्षणि यन्ना सहन्दा तदशाः इरश्रोणद् रश्रोणा यरशृणोद् रक्षविष्ठाः यच्छदमभिरज्यन् तच्छदभिषग प्रोष्ठपदेषोदयच्छन्त देवत्यामरवन्तश्वैजोरीञ्चत अवसरणेष्व वा वहन् तानि वा एतानि यमनक्षत्राणि या नेवदेवनक्षत्राणि तेषु कुर्वेति राजेनकुम् सङ्गवात् ततो देवाग्निष्टोमम् निरमिवद तत्तदात्तवीर्यर्मार्गः इत्यस्य सङ्गवः तत्पुण्यन्ते जश्वः तस्मात्परिवशमः समायन्ते यत्र देशेन कुम् सङ्गवात् राजीनम् मध्यन्तिनात् ततो देवा उच्चन्निरमिमद तत्तदात्तवीर्यर्मार्गः बृहस्पतेर्मध्यन्तिनः तत्पुण्यम् तेजस्वः तस्मात्तरिते क्षणिष्ठन्तपदे यत्प्रदेशेन मध्यञ्जिनात् प्राचीनमपराह्णात् ततो देवाश्रोडशिरण्रमिवता तत्तदात्तवैर्यण्र्मार्गः भगस्यापराह्णः तत्पुण्यन्तेजस्वः तस्मादपराह्णे कुमार्यो भगमिक्षमाणाश्चरन्ति यत्प्रदेशेन अपराह्णान् प्रातीरकम् सायात् ततो देवादिरात्रन्यकमिवता तत्तदात्तवीर्यन्यर्मार्गः वरुणस्य सायम् तत्पुण्यम् च नश्यः तस्मात्तरेणानुवदे ब्राह्मणो वा चादिपुरुषो नक्षत्राणाम् समानस्या ढः पञ्चपुण्यानि नक्षत्राणि चत्वारिश्लीलानि तानि न यच्च परस्तान्नक्षत्राणायच्चावस्तात् तान्येकादश ब्राह्मणो द्वादशः यगेवम् विद्वान्सम्वत्सरम् व्रतम् चरति संवत्सरे नैवास्य व्रतम् गुप्तम् भवति समानस्यान्नः पञ्चपुण्यान्यक्षत्राणि चत्वारिश्लीलानि तानि न वा आग्ने रात्रिः ऐन्द्रमः तान्येकादश आदित्यो द्वादशः यग एवम् विद्वान् संवत्सरम् व्रतम् चलति संवत्सरेणैवास्य व्रतम् गुप्तम् भवति ब्रह्मवापि न वदन्ति कतिपात्राणि यज्ञम् वहन्तीति त्रयोदशे जिब्रूयात् स यद्ब्रूयात् कस्तानि निरमिमेतेति वृजापतिरिजिब्रूयात् स यद्ब्रूयात् कुतस्तानि निरमिते आत्मन इति प्राणापानाभ्यामेवोपाकस्वन्तरियामो निरमिमीत यानादुपागं सुसवनम् पाचलैन्द्रवायवम् दक्षक्रतुभ्याम् नेत्रावरुणम् श्रोत्रादाश्विनम् चक्षुरशुक्रावन्सिनोः आत्मन आग्रहिणम् अङ्गेभ्यमुक्त्यम् आयुषोऽध्युपम् प्रतिष्ठायादुपात्रे यज्ञम् वापदम् प्रजापतिर्निरमिमीत स निर्मितो नाध्ययतसमप्लीयत स एतान् प्रजापचनपि मापा न, न पश्यत् तान्निरपपत् तैर्वेश यज्ञमप्यपपत् यदपि मापा भवन्ति यज्ञस्तधृत्यासंप्रयाय ऋतमेव परमेष्ठी ऋतम् नापेति ऋते समुद्राहितः ऋते भूमिर्यज्ञश्रुता अग्निस्तिज्ञे सोतिषाः तपः क्रान् मनुष्यः शरस्तपस्याहितम् <Sess> वैश्वानरस्य तेजसा ऋतेनास्य निवर्तये सत्तेन परिवर्तये अपसा स्यानुवर्तये शिवे नास्योपवर्तये शग्मेनास्याभिवर्तये तद्रतम् तत्सत्यम् तद्व्रतम् तच्छकेयम् तेन शकेयम् तेन तदाभ्यासम् यद्भर्मः पर्यवर्तयते अन्नान् पृथिव्याधिवः अग्निषानवोजसा वर्णोऽभिजभिः सह इन्द्रावरद्भिः सिभिः सह अग्निस्तिग्न शोचा तपः क्रान्तमुष्णिहा शिरस्तपस्याहितम् वैश्वानरस्य तेजसा ऋतेनास्य निवर्तये सत्येन तेन सखेयम् तेन ताध्यासम् यो अस्या पृथिव्यास्त्वति निवर्तयत्योषधीः अज्ञदेशा नवोचसा वर्णोऽभिजभिः सह इन्द्रो मदद्भिः सज्जिभिः सह अज्ञस्तिग्ण शोचा तपाक्रान्तमुष्टिहास्तवस्याहितम् वैश्वानरस्य केजसा कृते निवर्तये के सत्येन परिवर्तये तथास्यानुवर्तये शिवेणास्योपवर्तये षड्मेनास्याभिवर्तके तद्रतम् तत्सत्यम् तद्वृतम् दच्छकेयम् तेन शकेयम् तेन राध्यासम् एकम् वा समुदसृजत् परमेष्ठे प्रजाभ्यः तेनाभ्यो मह आवहत् अमृतम् मत्याभ्यः प्रजामनप्रजायशे येन मासा अर्धमासाः ऋतमः परिवर्त्सराः येन चेते प्रजापते ईजानस्य न्यवर्तयन् तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे अग्निस्तिग्मेण शोषिषा तपः क्रान्तमुष्णिहा शिरस्तपस्याहितम् वैश्वानरस्य तेजसा ऋतेनास्य निवर्तये सत्तेन परिवर्तये तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेणास्याभिवर्तये तदृतम् तत्सत्यम् तदृथम् दच्छकेयम् तेन शकेयम् तेन राध्यासम् हेभावी यद्दैर्गे कुर्वद तदसुरानुकुर्वदा तेषुरावूर्ध्वम् मृष्टेभ्यो नापश्यन् ते केशानग्रे वपन्त अश्श्मश्रूणि अथोपपक्षौ स्तेवाञ्जायन् पराभवन् यस्यैवम् भवन्ति अवागेति अथोपरेव भवति अथदेव वूर्धम् पृष्ठे अग्रपश्यन् तौपपक्षावग्रेवपन्त अथ श्मश्रूणि अथ केशान् तस्ते भवन् स्वर्गम् लोकमायन् यस्यैवम् भवन्ति भवत्यात्मनाः अथोसु वर्गम् लोकमेति अथ इदम् मुणर्वक्त्रेमिषणमपश्यते शश्वश्रोऽ्यग्रे पपद अशोकपक्षौ अथ केशान् तथोपै स प्राजायत प्रजगापशुभिः यस्यैवम् वपन्ति प्रप्रजगापशुभिर्मिशनैर्जायते देवासुराः संयत्ताः सन् ते संवत्सरे व्यायच्छन्त तान् देवाश्चामास्ये देवाभिप्रायुञ्चत वैश्वदेवेन चतुरोमासो वृञ्जयन्तराजानः तान् शेषा वर्तयन्तपरि च वरुणप्रकाशैश्चतुरोमासोवृञ्जदवरुणराजानः तान् शेर्षन्विचावर्तयन्तपरि च सागमेधैश्चतुरोमासो वृञ्जदसोमराजानः तान् शेर्षन्निचावर्तयन्तपरि च यासम्वत्सर उपजेवासीत् रामेशामवृञ्जदा परासुराः त एवम् यद्वाकश्चादम् भास्यैर्यजते धातुर्यस्यैव भासो मृत्वा शीर्षम् निश वर्तयते परि च एषा सम्वत्सर उपजीवा वृङ्कयताम् भ्रातुर्यस्य निवर्तयते यद्वा इमा मज्ञा वायसे निवर्तयति एतदेवै नाकम् रूपम् कृत्वा सादश्व भूयसी भवन्तेति प्रजाय एवम् विद्वान् लोहितायसेन निवर्तयते एतदेव रूपम् धृत्वा निवर्तयते सरदश्वन् भवन्नेति त्रैमजायते त्रेण्या शल्या निवर्तयेत त्रीणि त्रीणि वै देवाना ऋभ्यामेव तद्वीर्यकेषु लोकेषु प्रतिष्ठति यच्चादुर्मास्य याज्यात्मनो नावद्येत् देवेभ्य आवृश्चेत चतुर्षु चतुर्षमासेषु निवर्तयेत परोक्षमेव तद्देवेभ्य आत्मनो व्यद्यनाम् पुरस्काय देवानाम् वा येज आनीतः यश्चादुर्मास्य याजी देवता एवाप्यजि नाश्च रुद्रः प्रजाम् पशो मन्यते आयुषप्राणकम् सन्तनो प्राणादपानगम् सन्तनो अपानाद्व्यानगम् सन्तनो व्याणाश्चक्षुः सन्तनो चक्षुषश्रोत्रकम् सन्तन श्रोत्रामनः सन्तन मनसोपाचकम् सन्तनो वाच आत्मानकम् पृथिव्या अन्तरिक्षकुंसन्तनो अन्तरिक्षाद्विपुंसन्तनो दिवः सुपः सन्तनो इन्द्रोदधिः वृत्राण्यप्रजस्कृतः देहाननवधेर्नव इच्छन्नश्वेच्छिदः पर्वते शुभः श्रुतम् तद्विदच्छन्यमावति अत्राहोरमन्वता नामतुष्टिरवीच्यम् इच्छाचन्द्रमस गृहे इन्द्रमै व्यार्थिनो बृहत् इन्द्रमर्गेऽभिरर्पिनः इन्द्रम् वाणीर्णोषत इन्द्रयुद्धर्योसजाः सम्मिश्लावचोर्याः इन्द्रोवज्रैः रयः इन्द्रोदीर्घाय चक्षसे आसूर्यगम् रोहयद्विभिगुरभिरध्यमेरयत् इन्द्रवाजेषृणो वा सहस्रप्रधनेषु च उग्र उग्राभिरोतिभिः उग्रा इन्द्रम् वाजयामसे महे वृत्ताय हन्तवे <SedanELLER> सवला ऋषभोभवत् इन्द्रः सदामने कृतः ओजेष्ठः सबलेहितः द्युम्नेश्लोकेशसौम्यः विरावद्रोणसंहृतः सबलोनपच्युतः अवक्षोग्रोस्त्रुतः देवासुराः संयत्ता आसन् स प्रजापदरिन्द्रम् ज्येष्ठम् पुत्रमपन्यशत्तः नेदे नमसुराबलीयामिंसोऽहनन्विते प्रह्लादो हवेका जाधवः विरोचनग्रस्वम् पुत्रमपर्यसत्ता देवेण देवाः नन्दिते ते देवाः प्रजापतिमो समेत्योजोः नाराजकस्य युद्धमस्ति इन्द्रमन्विच्छामेति तैयज्ञकृतुभिरन्वैक्षन् कैयज्ञक्रतुभिर्नान्व विन्दन् तमिष्टिभिरन्वैक्षन् तमिष्टिभिरन्व विन्दन् तदिष्टीणामिष्टित्वम् ज्येष्टयो हवीनाम तायिष्टेत्याचक्षते परोक्षेण परोक्षप्रियाय वैदेवाः तस्माकेतमाः ज्ञाने शममेकादशकपादन्ते क्षणीयन्निरगपन् तदपद्रुत्या तन्वदा तान् वत्रे सञ्ज्ञाजान्तपुपानयन् एतदन्तमेव कृत्वा तद्रवन् हे प्रायणीयमपि समारोहन् तदपद्रुत्या तन्वदा ताञ्चैवम् तवपालयन् ते तदन्तमेव कृत्वा दद्रवन् कहाहन् न पन्तुन्वद तायिडाहन्तौ वानयन् ते तदन्तमेव कृत्वा दद्रवन् तस्मादेता एतदन्तानिष्टयः सन्तिष्ठन्ते एवगो हि देवा अकुर्वद इति देवाकुर्वद इत्युवै मनुष्याः कुर्वदे ते देवा ऊचुः तन्नोऽसुराः पाप्मानुविनिन्दन्ति उपागुंशोपसदाचरावान् तथा असुराः पाप्मानानुवेत्स्यन्तीति तनुपागुंशोपसदमदन्वदा विश्रगेवनोच्य श्रवेणाघारमाघार्य विस्रः परा हेराहुतेन हृत्वा श्रुवेणापसरञ्जु भवान् चक्रुः उग्रम् वचो अपावधेन्वेषम्बचो अपावधीनुस्वाहेति अपावधीन अशनिगाविवासे हवा उग्रम्वचः येन शबेन हत्यञ्च द्वेषम्बजः एतगौ हवावदच्चशब्धाविहितम् परात्मानम् देवा अपजिभ्रिरे तथसो येनैतैर्विद्यवारः तिस्रगेवसामिधेनेरणोच्य श्रवेणाघारमाधार्य तिस्रः परागेराहुगेन हुत्वा श्रुवेणापतरञ्जुहोगि उग्रम् वचो अपावधी वेदम् वचो अपावधि स्वाहेति अशनया विपासे ह वा उग्रम् वचः येनश्च ये वेदहत्यम् च त्वेदम् वचः येतमेव तत् चतुर्था वेदम् पात्मानयजमानोपहते ते भनीयैवाह पशुमानभन्ता अह्न दात्र्यायेव तद्देवावर्तिम् पात्मानम् मृत्युमपजङ्भिरे तस्माद्भिनीयैवाहः पशुमालभेत अन्ध एव तद्विजमानोवृत्तिम् पात्मानम् चादुर्व्यानपनुदते तेनाभिनीयेवरात्रेः प्रचरेत् दात्र्या एव तद्विजमानोवर्तिम् बात्मानम् चादुर्व्यानपनुदते सगेन उपवसशीरेहम् तु देवत्यः पशुना लभ्यरे अस्मिल्लोके यजमानः अस्थि च मागुंसञ्च अस्थितैवतेन मागुम्सन् च यजमानः सग््यः स्कुरुते तावा एताः पञ्चदेवताः अग्निलोपावर्जन्निद्रावर्णौ पञ्चपञ्चैव यजमानः तम् मागुम्सर्गस्ता वास्थिमज्जा एतमेव तत्पञ्चसा विहितमात्मानम् वरुणपाशान्मुञ्चते एषायुणत्वाय छन्दोभिः प्रातरह्यन् तस्मात् सप्त निर्धराच्छन्दांसि प्रादरणभाग्येनोच्यन्तेद्योपासीदन् उपास्मे गायता नगिरे तस्मादेवया वैष्णमान उपसद्यः समुद्रमुत्तरतः प्राज्वलग्भो यन्तेन एकपापसमुद्रः यच्चत्वारः एष उपेमसभोम्यन्तः यद्यन्तः शलन्त्रिपोरुषम् कस्मात्तन्त्रिपुतस्कम् खनन्ति स सुवर्णरजाभ्याम् कृषेभ्याम् परिग्रीतासीन् स्यात् अतिहदय तस्मादादित्यः अशयत्सुवर्णरजनाभ्याम् कृषेभ्याम् परिधीतासीर सास्यकौशिकताः तरन्त्रिपदाभिप्रास्तु पदा तरन्तृपदाददता तरन्तृपदाहन् यावदे त्रिपुतो मात्रा पञ्चदशेनाभिप्रास्तु पदा त्वम् पञ्चदशेनाददता त्वम् पञ्चदशेनाहन् यावदे पञ्चदशस्य मात्रा न सप्तदशेनाभिप्रास्तु पदा नरम् सप्तदशेनाददता नरम् सप्तदशे नाहन् यावदे सप्तदशस्य मात्रा तस्य सप्तदशेण क्रियमाणस्य ते जोहरोपदत् तवेकविपुंशेनाभिप्रास्तुपद तवेकविघुंशेनाददत त्वमेकविघुंशेनाहरन् यावत्येकविघुंशस्य ना मात्रा ते ये त्रिवतास्तुपदे यावदे त्रिवृतो अज्ञलवैत्रिवत् यावद्वा अग्नेऽर्धमथो सोमभुदेत्या नव्येति तावदे त्रिभुतो मात्राः अग्ने वैनन्तरे मात्राकुंसायुज्यपुंसलोकताङ्गमयन्ति अथ यत्पञ्चदशेन स्तुमते पञ्चदशेनैव नद्यनवानमाददते तम् पञ्चदशेनैव हरन्ति यावे पञ्चदशस्य मात्राः चन्द्रमाणे पञ्चदशः ये चिपञ्चदश्याम क्षीयते पञ्चदश्यामापूर्यते चन्द्रमथ एवै नन्त मात्रागुंसायुज्यगुंसलोकदानम् गमयन्ति अशयत्सप्तदर्शेण स्तुवदे सप्तदर्शेनैव तद्यज मानमाददम् सप्तदर्शेनैव हरन्ति यावे सप्तदशस्य मात्राः यापदर्वे सप्तदशः प्रजापते देवेन मात्रापुंसायुज्यगुंसलोकदाहम् गमयन्ति अशगदेकविपुंशेन स्तुपते एकविपुंशेनैव तद्यजमानमादते कमेकविपुंशेनैव हरन्ति यावत्येकविगुंशस्य मात्रा असौ वा आदित्यैकविपुंशः आदित्यस्यैवैनन्तदे मात्रागुंसायुज्यगुंस लोकदाहम् गमयन्ति ते पुष्यौ न् हे अहो रात्रे अभवताम् अह एव सुवर्णा भवत् रजता रात्रिः स यदा नित्य उदेति एतामेव तत्सुवर्णाम् कृशीम नु समेति अथविदः समेति एतामेव तद्वशताम् कुशीम न संविशति प्रह्रादो तस्मात्मदातु जगन्ना च मे ये वे चत्वारस्तोमाः अथ एवञ्च कलिः सह तस्माचतुष्टोमः तच्चतुष्टोमस्य चतुष्टोमत्वम् प्रदाहुः प्रथवादिता निज्योतींषि यकेतस्य स्तोम इति त्रिमत्पञ्चदशः सप्तदश एकविदुंशः स्तोमाः सोद्रवीण सप्तदर्शेन क्रियमाणोऽव्यलेशिषे भिरद्यतमेति तमस्विनो दानाभिरविरज्जनान् पूषाकरम्भेन भारतीपरिमापेन मित्रावर्णोपयस्य या तदाभ्याम् धानाः पोष्ठः करम्भः भारत्यैपरिपापः मित्रावर्णयोपयस्या च तस्मादेतेजागम् भविष्यामिन्द्रमेव यजन्तीति एताह्येन देवता इति ब्रूयात् एतेन हविर्भ्यभिषज्यज्ञस्तस्माभिः कम्भतोऽष्टाकपालेन प्रातस्य वनेऽभिरज्यन् हृद्रा एतादशकपालेन माध्यन्दिने सवने विश्वे देवा द्वादशकपालेन तृतीयसवने स यदष्टाकपालान् प्रातस्य वने कुर्यात् एकादशपालान्माख्यन्दिने शवने द्वादशकपालाकस्तृतीयशवने विलो मदद्यज्ञस्य क्रियेण एकादशकपालानेव प्रातःसवने कुर्यात् एकादशकपालान्माख्यन्दिने शवने एकादशकपालाकस्तृतीयशमने यज्ञस्य सरो मत्वाय तदाहुः यज्ञसूनाम् प्रातःसवनम् न्ति नकुम्सनम् विश्वेषाम् देवानाः तृतीयसवनम् अथ कस्मादेतेषाकम् हविषामिन्द्रमेवतायिब्रूयात् एकैर्हद्भिरभिस्तस्माभिरे तस्या वा योगपादादविभयोः अवेकै सप्तछन्दश्पश्रयन् यदश्रयन् तच्छ्रायन्ती यस्य श्रयन्ती यत्त्वम् यदवारयन् ये तद्वारवन्तीयस्य वारवन्तीय त्वम् तस्यावार्ये वा तस्माकेतानि सप्तवर्तरात्रेण्यरिच्छन्त नेण्यभवन् सपृहते वा स्पृशत् द्वाभ्यामक्षराभ्याम्भ्यामेव कक्षरापृहति यस्यान्तः प्रत्यतिष्ठते द्वादशोऽर्णवास्यः द्वादशाष्टकाः द्वादशामावास्याः एषा वामसा देवाक्षरा बृहति यस्यान्तप्रत्यतिष्ठति यानि च छन्नाकस्य प्रत्यच्छन्त यानि च माम् उपसर्गश्रयते चतुर्भ्यलक्षणैर्नुष्ठृहतेन्नोनुभवत् चतुर्भ्यलक्षणे पञ्चबृहतेमत्यरिच्यत तस्यामेतानि चत्वार्यक्षराहान्यवच्छिद्यादधात् ते बृहती एव भूत्वा बृहते वश्रयताम् अष्टाभिरक्षणेरुष्णुगृहतेन्नोऽनुभवत् अष्टाभिरक्षणे श्लबृहतेरमत्यरिच्यत तस्यामेतान्यष्टावक्षराण्यपच्छिद्यादथात् के बृहती एव भूत्वा बृहदेव समाश्रयताम् द्वादश अक्षरेः गायत्रे बृहतीम् नोऽभवत् द्वादश अक्षरे जगते बृहतेमत्यरिच्य कस्यामेतानि द्वादशाक्षराहण्यभिपक्षिद्यादधात् हे बृहती एव भूत्वा बृहदेव समाश्रयताम् सोऽ ब्रवेत् प्रजापतिः भवता मे भवत युष्माभिरहमेतमध्वा नमनुसञ्चरानीति तस्य कायत्वे च जगते च पक्षा भवताम् उष्णि च तृष्टुप् प्रष्ट्यौ अनुष्टुप् च पङ्कश्चधुर्यौ बृहत्येवरभवद् सेतच्छन्दो रथमास्थाग एतमध्वा नमनुसमचत् एतमध्वानपुनसञ्चरति येनैष एतत् सञ्चरति यगेवम् विद्वान् स्वर्णेन गिरते यमुचेहमेवम् वेदा भो